सभा पर्व अथ प्रथमोऽध्यायः नारायणम् नमस्कृत्य नरं चैव नरोत्तमम् देवीं सरस्वतीं व्यासम् ततो जयमुदीरयेत् वैशंपायनवाचा ततो ब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ प्राञ्जलिश्लक्ष्णया वाचा पूजयित्वा पुनः पुनः मय अस्मात् कृष्णात् सुसंरब्धात् पावकाच्च दिधक्षतः त्वया त्रातोऽस्मि कौन्ते य ब्रूहि किं करवाणि ते कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुरा प्रीतिमान् भव मे नित्यम् प्रीतिमन्तो वयं चते। ते मय विभो यथात्थ पुरुषशभ प्रीतिपूर्वमहं किञ्चित् कर्तुमिच्छामि भारत अहं हि विश्वकर्मा वै दानवानां महाकविः सोऽहं वै त्वत्कृते कर्तुम् किञ्चिदिच्छामि पाण्डवा दानवानां पुरा पार्थ प्रासादा हि मया कृताः रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः उद्यानानि च रम्याणि सरांसि विविधानि च विचित्राणि च शस्त्राणि रथः कामगमस्तथा नगराणि विशालानि साट्टप्राकारतोरणैः वाहनानि च मुख्यानि विचित्राणि सहस्रशः बिलानि रमणीयानि सुखयुक्तानि वैभृशम् एतत् मया सर्वम् तस्मादिच्छामि फाल्गुना अर्जुन प्राणकृच्छ्राद् विमुक्तम् त्वमात्मानम् मन्यसे मया एवम् गते न शक्ष्यामि किञ्चित् कारयितुम् त्वया न चापि तव सङ्कल्पम् कृष्णस्य क्रियताम् किञ्चित् तथा प्रतिकृतम् मयि चोदितो मयेन भरतर्षभा मुहूर्तमिव किमयम् चोद्यतामिति ततो विचिन्त्य मनसा लोकनाथः प्रजापतिः चोदयामास तम् कृष्णः सभा वै क्रियतामिति यदि त्वम् कर्तुकामोऽसि प्रियम् शिल्पवताम् वरा धर्मराजस्य या मन्यसे याम् कृताम् नानुकुर्वन्ति मानवाः प्रेक्ष्य विस्मिताः मनुष्यलोके सकले तादृशीम् कुरु सभाम् यत्र पश्ये स्वया, यव्यान प्राया पश्येमिस्वयासुरान्माषाशा कुर वै म